श्रीमद्भागवत कुरर से लेकर भृंगी तक सात गुरुओं की कथा ब्राह्मण उवाच परिग्रहो हि दुखा यदितमृण यद सुखमाति तिद्वान्स्वकिचन तामिसंकुरिनं जघ्नुबलिनो ये निरामिषाः ददामि सं स सुखं समुविन्दत न मे मानावमानौ स्तु न चिन्ता गेहपुत्रिणाम् आत्मक्रीड आत्मरतिर्विचरामीह बालवत् द्वावेव चिन्तया मुक्तौ परमानन्दाप्लुतौ यो विमुग्धो जडो बालो यो गुणेभ्य परं गतः क्वचित्कुमारी त्वात्मानं विष्णानान् गृहमागतान् स्वयं तान् अर्हयामास क्वापि या तेषु बन्धुषु तेषामभ्यवहारार्थं शालीनरहसि पार्थिव अवघ्नन्त्या प्रकोष्ठास्थाश्चक्रो शङ्खास्वनं सा तज्जुक्तिम् जुगुप्सितं मत्वा महती वीडिताततः भभञ्जैर्कैसकङ्कैकसशङ्खान् द्वौ रूपाण्योरशेषयत् उभयोरप्यभूद्घोषो यवघ्नत्याः स्म शङ्खयोः अन्वशिक्षामिवं तस्या उपदेशमरिन्दम लोकान्नोचरन्नितान् लोकतत्त्वविश्रया वासे बहूनां कलहो भवेद्वार्ताद्वयोरपि एक एव चरेत्तस्मां कुमार्यायुव कङ्कणः मन एकत्र संयज्या वैराग्याभ्यासयोगेन श्रियमालमचन्द्रितः यस्मिन्मलो लब्धपदं जेतच्छनैन्तनैर्मुञ्चति कर्मरेणुन् सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्य निन्दनम् तदैवमात्मन्यवरुद्धचित्तोर्न वेद किञ्चिन् बहिरन्तरं वा यथे सुकारो निपतिं व्रजन्तम् इतो गतात्मानददर्शपार्श्वे एकचार्यनिकेतसान् अप्रमत्तो गुहाशयः अलक्ष्यमाण आचरे मुनिरेकोऽल्पभाषणः गृहारम्भो च दुःखाय विफलश्चाध्रुवात्मनः सर्पपरकृतं वेश्म प्रविश्य सुखमेधते एको नारायणो देव पूर्वश्रेष्ठं समाययाम् संहृत्य कालकलया कल्पान्त इदमीश्वरः भूर आत्माधारो आत्माधारोऽखिलाश्रयः कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु सत्त्वादि स्वादिपुरुषः प्रधानपुरुषेश्वरः परावराणां परमास्ते कैवल्यसङ्गितः केवलानुभवानन्दसन्दोहो निरुपाधिकः केवलात्मानुभावेन श्वमायां त्रिगुणात्मिकां सन्शोभयन् सृजत्यादौ तया शुद्धमरिन्दम तामाहुस्त्रिगुणं जक्तिं सृजन्तीं विश्वतोमुखं यस्मिन् प्रोतमिदं विश्वं येन संसरते पुमान् यथोर्णनाभिरुषियाजुर्णां सन्तच्च वक्त्रतः तया बृहृत्य भूयस्तां गृहत्येवं महेश्वरः